सौराष्ट्रदेशे विशदेति रङ्गे ज्योतिर्मयं चन्द्रकलावतं सं भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये तं सोमनाथं शरणं प्रपद्ये श्रीशैलसङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तं अर्जुनं मल्लिकपूर्वमेकम् नमामि संसार समुद्रसेतुम् अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् अकालमृत्योः परिरक्षणार्थं वन्दे महाकाल महासुरेशं वन्दे महाकाल महा कावेरिका नर्मदयोः पवित्रे समागमे सज्जनतारणाय सदैवमान्धात्रिपुरे वसन्तम् ओङ्कारमीशं शिवमेकमीरे तरे प्रज्वलिका निधाने सदा वसन्तं गिरिजासमेतं सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि श्रीवैद्यनाथं तमहं नमामि याम्ये सदंगे नगरे तिरं ये विभूषिताङ्गं विविधैश्च भोगैः सद्भक्तिमुक्तिप्रदम् ईशमेकं श्रीनागनाथं शरणं प्रपद्ये श्रीनागनाथं शरणं प्रपद्ये महाद्रिपार्श्वे च कटेरमन्तं सम्पूज्यमानम् सततं मुनिन्द्रैः सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे केदारमीशं शिवमेकमीडे सह्याद्रिशीर्षे हिमले वसन्तं गोदावरीतीरपवित्रदेशे यद्दर्शनापादकम् आशुनाशं प्रयातितं त्र्यम्बकं गीशमी देये सुताम्रपर्णि जलराशियोगे निबध्य सेतुं विशिखैरसन्धे श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि किनी शाकिनी का समाजैः निशेव्यमाणं पिशिता सदैव भीमारि पदप्रसिद्धं तं शङ्करं भक्तयितुं नमामि सानन्दमानन्दवने वसन्तम् आनन्दकान्तं हतपापवृन्दं वाराणसीनाथमनाथनाथं श्रीविश्वनाथम् शरणं प्रपद्ये श्रीविश्वनाथं शरणं प्रपद्ये पुरे रम्य विशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् वन्दे महोदारतरस्वभावम् कृष्णेश्वराख्यं शरणं प्रपदे कृष्णेश्वराख्यं शरणं प्रपदे ज्योतिर्मय द्वादश लिङ्गकानाम् एवात्मानं प्रोक्तमिदं क्रमेण स्तोत्रम् पठित्वा मनुज्योतिभक्त्या फलं तदालोक्यनिजम् भजे च फलं तदालोक्यनिजम् भजे च